प्रारंभः ऐत्रीयारण्यके प्रथमप्रश्नप्रारम्भः ओ भद्रम् गर्णयो ओम् शाम् धिःशाञ्शान्भिः भर्द्रम् गर्णेभिः शृणुयामदेवाः भद्रम् पश्ये वा क्षलिजत्राः स्त्रीरङ्गैः तुष्ट्वा गृंसस्तनोभिः ऋषेमदेवैरङ्गतायोः स्वस्ति न इन्द्रावृद्धश्रवाः स्वस्ति नः पूजा विश्ववेदाः स्वस्ति नस्ताक्षरिष्णेः स्वस्तिनामृहस्पतिर्दधातु स्वस्तिना आपमापामपः सर्वाः अस्मादस्मादितोमुदः अज्ञर्वायश्च शूर्यश्च सहसङ्गस्करब्ध्यः वायुवश्वालक्ष्मिपदयः मरेढ्यात्माद्रुवः देवेर्भवणसोमरेः पुत्रवत्पायमे सुता महानाम्नेर्महामानाः महसो महसस्वः देवेः पर्जन्यसोवरेः पुत्रवत्पायमे सु अपासृष्ट्यमपाक्षः अपासृष्ट्यमपार्घम् अपा अपाग्रामपजावर्तिम् अपा अपदेवीरितोहिता वज्रम् देवीरजितागच्छ भुवनम् देवसूवरेः आगत्य रचितिर्देवी धमुदेशदा शिवानः सन्तमा भवन्तो दिव्यापमोषयः सुमर्णीकादनस्पति मा देव्योमसन्दृशि स्मृतिः प्रत्यक्षमैतिह्यम् अनुमानश्चतुष्टयम् येरैरादित्यमण्डलम् सर्वे विधाः सोऽमरीचिमादत्ते सर्वस्माद्धुवनादिभिः तस्याः पाकविशेषेण मृतङ्कालविशेषणम् नदीवप्रभवात् काचित् अक्षय्यात्सङ्गते यथा नद्योभितमायन्ति सौरस्त्रेण निवर्तते एवम् नानासमुत्थानाः कालाः संवत्सलगः श्रुताः अनुषश्च महसश्च संवत्सरम् विद्यादे तदेव लक्षणे अणुभ्यमहद्भिष्ट समारूढप्रदिश्यते संवत्सरप्रत्यक्षेण नाशिसप्रदिश्यते वटरोविग्रहप्लिङ्गः एतद्वरुणलक्षणम् यत्रैतदुपदिश्यते सहस्रम् तत्र नीयते एककम् हि शिरोना मुखे कृच्छ्रन्दुरलक्षणम् वैतः सप्तेन्द्रियाणि जर्पितन्त्वे उपदिश्यते शुक्लकृष्णेयसंवत्सरस्य लक्षिणवामयोः पार्श्वयोः तस्य यदा भवति शुक्रन्ते अन्यत् अन्यदे अन्यत् पुषलोके अहने द्यौरिवासि विश्वालिमायावतिस्वसावः भद्रादे पूषर्णिहराजिरस्तुली नात्रिभुवनम् न ना पूषा न पशवः आदित्यः संवत्सर एव प्रत्यक्षेण प्रेतमम् विद्यात् एतद्विसंवत्सरस्य प्रेतमघम् रूपम् योऽस्य महारक्ष उत्पत्स्यमानो भवति यम् पुण्यम् कुरुष्वति समाहरणम् दद्यात् सा कञ्चानागुम् सत्त्वसमाहुते कजम् षडुद्यमार्षयोदे भजा ओणमर्यामिच्छितः सखासखायमब्रवीत् ग्रागोऽस्पदिशते यस्ति द्याजशुंसखायम् वाच्यविभागो अस्ति यदेघुम् शृणोत्येन किम् शृणोति न हि प्रवेदतु कृतस्य पन्थामिते ऋतुरऋतुनानुद्यमानः निदनादाभिधावः षष्टिश्चत्रपुंसखावल्गाः शुक्लकृष्णौ शाष्टिकौ सारागवस्त्रैर्जरदक्षः वसन्तोपसुभिः सह सम्पत्सरस्थो कैषकत्वसमस्मृतः ममो नादयते कन्यान् अमोकष्टपरिरक्षतः एतावाचप्रयुज्यन्ते यत्रैतदुपदिश्यते एतदेव विजानीयात् प्रमाणङ्कालपर्यये विशेषणम् पक्ष्यामः ऋतूनाङ्गण्यबोधत शुक्लवाता रुद्रगणः प्रदेशः वे प्रतिक्षेण सह विश्वरूपाणि वा सागुंसि आदित्यानाम् निबोधः संवर्सरेण कर्मफलम् परिणाभिर्दुंसः दुःखो दुःखचक्षुरिव पद्मापीतयपदृश्यते शीतेनाम् यथयन्निव रुदक्षय वदृश्यते कालेश्चैव साम्यश्चास्य चक्षुषी यावे वराभ्यगृष्यन्ते संवत्सराभ्यगृष्यन्ते या प्रतिष्ठन्ति संवत्सरेण प्रतिष्ठन्ति वर्षाभ्येत्यर्थः अक्षिदुःखोच्छरस्यैव विप्रथन्ये गणेनिके आन्द्रेदाघन्नास्ति त्रिभूनान्तन्निबोधल कनकाभानिवासा पुंसि अहतानि निबोधल अहम्भो जीवनप्रदः एता वादप्रयुज्यन्ते शरद्यत्रोपदिश्यते अभिषोवन्वन्तोऽभिघ्नन्त किव वादवन्तो मुद्गनाः अमुतो जेतुमिषुमुखमिव सन्नद्धाः सह दृशेयः अबद्धस्य एवस्य वर्णेरिव ऋषिकादकवर्दिनः अक्रुद्धस्य हेमश्चक्षुषीत्या अक्षणयोःक्षिमणोरिव दुर्भिक्षन्देव लोकेषु मनो नाम च गङ्गृहे एतावाचप्रवदन्तीः वैद्युतोयान् त्रिशैशीः सा अग्निः पवमाना अन्वैक्षता इह जीविकामवदिपश्यन् तस्यैका भवति इहे हवस्वतपसः मथः सूर्यत्वचः शर्मसत्पथावरणे अधिकाम्राणि वासा पुंसि अष्टिवद्रिशग्नि विश्वे देवाभिप्रालन्ति अग्निजक्त्वाश्च एव देवो न मत्यः न राजा वर्णो विभो आग्न्यो न भवमानः बाधर्कक्षर विद्यते युग्स्वीकाथलरात्रिः पृथिव्यामुरा श्रुता तस्येन्द्रोन्द्ररूपेणम् अभ्रपर्णे लक्षते एतदेवस्य एतद् धनः ऋद्रस्यः शिरबुद्धिभेदा सप्रवर्गा भवते तस्माद्यसप्रवर्गेण यज्ञेन युद्धिरः प्रतिधादि नैनम् ऋद्ध आरु भवति एवम् वेदोद्वाक्षोजिरश्चादिशिरः प्रदृश्यते नैव लोपन्न वा सागुञे चक्षुप्रतिदृश्यते अन्यान्यन्तरहिभ्यस्रातः ततस्तद्येवलक्षणम् लोहितोक्ष्षारचेष्णे सौर्यस्योदयनम् प्रति अरुकरभिण्ञ्जलिकाङ्करभिनुताम् उपा तस्मै सर्वमन्ते पर्यादाकर्ता प्रभुलोधा ्राह्मणः आप्नोति यगेवम् वेदा सखदसंरत्सरे सेनानीभिः सह इन्द्राय सर्वान् कामानपि भवति सद्रप्सः तस्यैषा भवति अभद्रप्सो अगुम् सुनरेमतिष्ठते यानः कृष्णा ऋषभिः सहस्रैः असुरान् परिवृष्टदे पृथिव्यटूषमदे तामन्नवस्थितः संवत्सरो दिवम् च नैवचार्याहन् देवासिनौ अन्योन्यस्मै दृह्याताम् यो द्रश्यते दे द्रश्यते स्वर्गान्लोकात् इत्यमण्डलानि सूर्यमण्डलायाख्यायिकाः अधवोद्धकंसनिर्वचनाः आलोकोऽभ्याजः पटलः प्रजङ्गः स्वर्णभाज्योतिषीमाने विभासः ते अस्मै सर्वेऽधिममातपन्ति ओर्जन्तु जगति कस्य कोष्टमः समः मेरन्द्रजा अस्यैषा भवति यत्ते शिल्पम् कस्य परो जनावदे इन्द्रियावत्पुष्कलम् चित्रभाव यस्मिन् सौर्य अर्पिता तस्मिन् राजानमधिविश्रये ममिति हे अस्मै सर्वे कस्य वा ज्योतिर्लभन्ते तान् स्वकस्य पादशनिर्धमति द्रष्टामगतिरैवम् प्राणजीवानेन्द्रियजीवानि सप्तशेषण्याः प्राणाः शूर्या इत्याचार्याः अवश्यमहमेतान् सप्तसौर्या पञ्चकर्मा आनुश्रयेवलोकश्यप इति भोवेदयितेलमहामेरम् गन्तम् अवश्यमहामेरसूर्यमण्डलम् परिवर्तमानम् गार्ग्यप्राणप्रातः गच्छन्तमहामेरुम् एकम् च जहतम् ध्याजवटलपदङ्गानिघने तिष्ठन्ना लभन्ति तस्मादितप्रितवाः अमुत्रेतरे तस्मादिहातप्रितपाः तेषामेषा भवति सप्तसूर्या एव उपविष्टाः प्रतिभिदक्षिणावान् ते अस्मै सर्वे कृतमागमन्ति ऊर्जन् दुहानानपस्फुरन्द इति सप्त त्रिजः सूर्या इत्याचार्याः तेषामेषा भवति सप्तदिशवना सूर्याः देवा आदित्यागे सप्ता तेभिः अवभ्याम् नागः करोति एतै भावता सहस्रतोर्यमेषम्पाहिनः तस्य इदाभवै यद्यापयन्तंशतम् भूमेः उदा स्युः नत्वावज्रेण् सहस्रकंसौर्याः अनुरजातमष्टरोदेव नानालिङ्गत्वादूनान्नासौर्यत्वाम् अष्टौदव्यवसयाः सूर्यमण्डलान्यष्टादमूर्ध्वम् एषा मेशा भवति चित्रम् देवानामुदकादनीकम् चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राप्यावापि अन्तरिक्षम् सूर्यात्मा जगदस्तत्सुतश्चेति क्वेदमभ्रण्विशदे क्वायगुम् संवत्सरामितः क्वाः क्वयम् देवरात्रि कुमासामश्रिदाः अर्धमासा मुहूर्ताः निविशन्ते आपःसौर्ये समाहिताः अभ्याहान्यपप्रपद्यन्ते विद्युत्सौर्ये समाहिता आवन्ने हि मे भूमि यञ्चासौ चोदशीभ्युस्मिदरान्तराभूतम् एने मे विशते उभे कृष्णापिशले भूमि इति वत्सस्य वेदना विरापतेहेन मतेः भूतम् सूर्यवशने मनुषयशस्ये व्यष्णभ्ना द्वदसे विष्णवेदे नाथर्थपथिवीमभिलो मयूकैः किं तद्यष्णार्बलमाहुः कादेत्यर्त्यम् परायणम् ये को निर्धारयद्देवः रेचते रोदसी उभे पादाद्व्यष्णार्बलमाहुः अक्षराद्दीप्यरुच्यते त्रिपदालयद्देव यद्दृष्णालेखमुत्तमम् देवा वा एषदस्य परायणम् वृक्षामित्रापरम् नृत्यम् अवमाध्यमम् च लोकम् च पुण्यपापानाम् एतत्पृच्छामिधम् प्रये अवमा उत्तरम् नृत्यम् अवमानम् तु मध्यमम् अग्रदेवावमो मृत्युः पापाः सञ्जन्ति सर्वदा आभोगास्त्वेव संयन्ति यत्र पुण्यकृतो जनाः ततो मध्यममायन्ति चतुर्ग्यम् च सम्प्रति दृच्छाविपापकृतः यत्र यात्र यते यमः पन्नस्तद्ब्रह्मन् प्रब्रूहि यदि वेदेत्वा गृहारे कष्टपादुदिताः सूयाः पापान्यर्भन्ति सर्वदा तत्र अन्यस्यन्दे वासवैः ते शरीरा प्रपद्यन्ते यथा पुण्यस्य कर्मणः अपाहान्यपादकेशासः तत्र ते यो निजाः प्राफलवृत्तिमापद्यन्ते पद्यमानाः स्वकर्मभिः आशादिकाक्रमय इव ततः पूयन्ते वासवैः येऽर्घः श्रुत्तमा भवति कस्य पश्या सिद्ध सिद्धगमनः सिद्धागमनः तस्य इडा भवति आ यस्मिन् सप्तवासभाः भा, पूर्व्यारुह येऽर्घः इन्दस्य घर्मादिचरिते कस्य वः पश्यक भवति तत्सर्वम् परिपश्यते सूक्ष्म्यात् अथाग्ने विश्वानदेव वृनान् विद्वान् योध्यस्पद्युः राणमेनः भूयिष्ठान्तेन विभक्तिम् विधेमेति अग्निश्च जातवेदाश्च सहो जाप्रभुः वैश्वानरोश्च वङ्राधाश्च सप्तमः विसर्पेवाष्टमोऽग्नीनान् ये जेष्ठोपसवः क्षिदा इति नीला तिष्ठपेटकातिष्ठेति आग्टिस्ट अथ वायोरेकादशपरुडस्यैकादशस्यैवस्यताः याश्रमाभिैत्रिलाः अजदाः परुढाः श्यामाः कपिला अतिलोहिताः ऊर्ध्वा अवदन्दाश्च वैत्रिदहित्यैकादश नैनम् वैत्रिदािनस्ति य एवम् वेदा सहो वाचव्यादोपादाचर्यः विद्युत्पथमेवाहम् मृत्युमेच्छमिति अद्वकामकं हन्ति य एवम् वेदा असगन्धर्वगणाः स्वानभ्रार् अङ्गारिबम्भारिः हस्तस्वहस्तः विश्वामिर्विश्वावसु मोद्धन्वान्सौर्यवच्चाः प्रत्येकादशगन्धर्वगणाः देवाश्च महादेवाः अस्मयश्च देवागरगिरः नये अस्ति एवम् वेदा गौरीमायुषलिलानि रक्षती एकपदी त्रिपदीशादिपुष्पदी अष्टापदी नवपदी बुभूषे शास्त्रापरमे व्योमन्विते वाचोविशेषणम् अथनिकतव्याख्याताः कानुक्रमिष्यामः वराहस्वतपदः विद्यन्म स्वधूपयः स्वापयोगृहमेधाः श्रेत्येते ये जेमे श्रीविद्विजः पर्जन्या पर्जन्याः सप्तपुरुषमेव भिषन्ते दे। वृष्टिभिरि एते विभक्तिविपरीताः सप्तभिर्वादैरुदीरिताः अमोन् लोकानभिवर्षन्ति तेषामेषा भवते समानमेतदम् उच्चैत्यवचाहभिः भूमिम् पर्जन्या जिह्वन्ति जिवम् जिह्वन्त्यज्ञैः अक्षरम् भोधकृतम् विश्वे देवा उपासरे महर्षिमस्य गोक्तारम् जमदज्ञमकुर्वद जमदघिराप्यायते छन्दोभिष्टदुर्तलैः नार्यः स्वामस्य दृप्ता सह ब्रह्मणा वीर्यावद शिवानः प्रतिशोषः तच्छञ्जोरावृणीमहे गातुञ्जज्ञाय दैवीये स्वस्तिरस्तुनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वञ्जिगादभेडजम् छन्नास्तद्विपदेः छञ्चतुष्पदे ख्याताः सहस्य हृदयम् भूमिः परमव्योमसहस्रवृत् अश्विना भृजूना सत्या विश्वस्य जगदस्पति जाया भूम्यःपतिर्व्योमा मिथुनन्त अतुर्यसोः पुत्रो बृहस्पति रुद्रः सरमा इदस्त्रीपुमम् शुक्रम् वा विषरूपे अहनेद्यौरिभस्थः विश्वाहि मायावधस्वधावन्तौ भद्रावान्भूषणा विहरादिरस्तु वासाद्यो चित्रौ जगतो निधानौ रावा भूमे शरधः सगुंसखायौ राना रासभाश्वाहवम् शुभस्पति आगलम् सूर्यया सह चुग्रोह भुज्युमश्विनौ तमोहसन्मौभिरान्वतीभिः अन्तरिक्षप्रभ्यरपोदकाभिः तिस्रः क्षपत्रहादिव्रजद्भिः नाद्याभुज्यमोहसुपलैः समुद्रस्य धन्मन्नार्द्रस्य पारे ऋभिरथैः शतमध्यषडश्वेः सवितारम् विजन्मन्तम् अनुबद्धादिशाम् वरः आहुपोरुषम् वरश्चैव सवितारे वसोऽभवत् जगिम् सुदृप्तम् मिलित्वैव शी अन्वेजदुग्रावक्रियान्तम् आयसूयान् सोमदर्शिषु सङ्ग्रामस्तमाद्योद्योतः पाचोगाह्याकृते सदर्गोऽभिस्तवाद्येणे रक्षदानम् विधाश्चये अन्वेजवयवृत्त्यास्तः एवमेतौ स्थोऽस्मिन् ते पृथिव्योः आरः गर्भम् दभासे त्रिः काविदटौ दम्पती एव भवतः ऋयोरेदो वत्सौ अग्निश्चात्यश्च रात्रे वत्सः श्वेतादित्यः अन्योग्निः ताम्रोरुणः काविदौ दम्पती एव भवतः त्रियो वत्सौ ऋतश्च वेदश्च अग्नेर्वृत्रः वेजुलादित्यस्य उष्माचनेहारश्च वृत्रस्य नेहारः तौ तावेव प्रतिवर्ध्यते शयत्रिगर्भिणी वृत्रेण संवसति तस्या वा एदुल्बणम् यद्राकौ रश्मयः यथाभिण्या उल्बनम् एवमेतस्या उल्बणम् प्रजयिष्टः प्रजया च पशिश्च भवति एवम् वेद एनमुद्यन्तमन्तम् चेति आदित्यः पुण्यस्य वत्सः अथ पवित्रा गिरसः पवित्रवन्तः परिभाजमासते रत्नाभिरक्षते वृणम् वास्रमुद्रम् वरुणस्थिरोदधे धीरायुच्छे प्रभृगात्राणि पर्ये च विश्वदः अतत्रामो अस्तु श्रुताग्रहम् दत्तत्समास ब्रह्मादेवानाम् अधरः सब्देश्रब्दात्रिष्टयते सर्वे त्रयोगस्त्यश्च नक्षत्रैः सङ्गतापसन् वा श्वस्यावर्तिकामस्य अमीरक्षमीरादौच्चान्तः तदर्थानि वरुणस्य मृदानिन्द्रमानक्षत्रमेति तत्सपितर्वरेण्यम् भर्गो देवस्य धीमहिनः प्रचोदयात् तत्सवितर्वृणेमहे वयम् देवस्य भोजनम् श्रेष्ठम् सर्वधातमम्भकस्य धीमहि अभागोहदर्विः दिवन्धरः भवन्त सम्भविष्यामः नाम नाम ना ने स्थावलोष्टा हेत प्रजाभूतान्योपनुः स्त्रियः सतीः तावु मे पुपुंसाहुः पश्यक्षण्डान्नपितदन्धः पुत्रस्य इमादिकेतना सविदः पिता सद अन्धो मनिमविन्दते कमलम् कुलिरापयत् अप्रत्यवञ्चत् कमलिक् ऊर्ध्वमोधवाच्छ सम्पदेर्मादयादिधिः अधितमुदीतम् वेनापणवनादितम् मृदम् जैवम् च यत्किञ्चित् अङ्गानि अदृश्यस्तृष्यध्याय तस्माज्जाता मे मिथौ जलन् पुत्रो निरत्यावेदयः अचेतायश्चेतनः सतम् मणिमविन्दने सोणम् कुलिरावेदे स्वग्रीरप्रत्यमुदे सोऽश्च नकरम् प्रविशेत् यदि प्रविशेत् विशो जलित्वा प्रविशेत् तत्सम्भवस्य व्रतम् आत्मज्ञेन एका आश्वमे गयोजनम् एकचक्रमे कथनम् पादध्रादिगजम् न श्यति न व्यच्छते न हास्याक्षोया तु सज्जति यच्छेताोहिताश्चाग्नेः अथेयत्वा च तिष्ठति एकया च तथसिष्टस्वभूते द्वाभ्यामिष्टये विपुंसत्या चे त्रिपुंसदा च ये धर्माय विहदा विमुञ्च आतरुष्व प्रतरुष्वध्यमासमसन्धमा आदित्ये चन्द्रमन्नानाम् गर्भमाधेर्यः इतः सिक्तकं सूर्यगतम् चन्द्रमसेरसङ्कृतिः मा राजञ्जनया अग्रे अग्न्यम् एको रुद्रमुच्यते सङ्ख्याता सहस्राणि स्मर्यले निर्दृश्यते एवमेतन्यबोधना आमन्त्रेन्द्रहरिभिः याहि मयोररामभिः मा त्वाके मुलिन्नपासिनः दसङ्गयवताजिः मागे चिन्पासिनः निधर्मे वता इमे अनुविष्टमहद्भिष्टा भिस्त निघेण समायुतैः कालेन हरितमापन्नैः इन्द्राचारिसहस्रयुग अभ्यर्विभ्राष्ट्यवसनः संवत्सराविषोपन्नैः नित्यास्तेस्त सुब्रह्मण्योगुम् सुब्रह्मण्योगुम् सुब्रह्मण्यम् इन्द्रागच्छ हरिवः आगच्छ मेधातिथेः मेषविषणश्वस्य मेने गौरावस्कम् चिह्नहल्यायै जाना कौशिकब्राह्मणगौतमब्रुवाण अरुणाश्वा इहागताः प्रथमः प्रशपेक्षितः अष्टो जिग्वासो अग्न्ययः अग्निश्च जातवेदाश्चेत्येते ताम्राश्वास्ताम्ररथाः ताम्रवर्णास्तथाः ण्डहस्ताः खादद्गतः पितो रुद्राः पराङ्गताः उक्तग्रस्थानम् प्रमाणम् च पुरगिता च विश्वरूपेरिहागतात्मना अप्सुषाद्वयोः उक्तो वेषो वासागुंसि च कालावयवानामिदप्रतीत्या वासात्या इत्यश्विनोः कोऽन्तरिक्षे शब्दम् वासिष्ठोरोहिणो वीमागम् चर्क्रे तस्य हिटा भवति ब्रह्मण उदरणमसि बृह्मण उदीर्णमसे ब्रह्मण आस्तरणमसे बृह्मणवस्तरणमसि अष्टयो नेमष्टपुत्रान् अष्टपत्रे विमाम्महे अहम् वेदनमे मृत्युः रचामृत्युरखाह रच अष्टयो वाण्यष्टपुत्रम् अष्टपदिजमन्तरिक्षम् अहम् वे धनमे मृत्युः न चामृत्युरगाहरत् अष्टयोनीमष्टपुत्राम् अष्टपत्नीमोन्दिवम् अहम् वे धनमे मृत्युः न चामृत्यरघाहरत् सुत्रामाणम् मही मोषो अतिशर्द्यौरतितनम् दरिक्षम् अरितर्मातासु पितासु पुत्रः विश्वे देवादिपञ्च जनाः अधिर्जातमरिदर्जनित्रम् अष्टौ पुत्रासो अधितेः जाता स्तन्नः परे देवा उपक्रयेत् सप्तभिः परामार्ताण्डमास्यदे सप्तभिः पुत्रैरदिः उपक्रयेत् पूर्वैयुगम् प्रजागी नृत्यवेददे परामार्ताण्डमाभरिदे तान्नुक्रमिष्यामः मित्रश्च वरुणश्च धाता च आर्यमा च अगुंशश्च हिरण्यगर्भो हंसस्तु विषय ब्रह्मज्ञानम् तदित्पदमिति गर्भप्राजावत्यः अधमुरुडः सप्तमुरुढः योऽसौ तपन् मृगेति स सर्वेषाम् भूतानाम् प्राणानादायोतेति वामे प्रजायामापशूनाम् मामः प्राणानादायोतगाः असौ योस्तमेति स सर्वेषाम् भूतानाम् प्राणानादायास्तमेति मामे प्रजायामापशूना माम प्राणानादायास्तङ्गाः असौयापूर्यते स सर्वेषाम् भूतानाम् प्राणेरापूर्यते मामे प्रजायामापशूनाम् माम प्राणेरापोरिष्ठाः असौयापक्षीयते स सर्वेषाम् भूतानाम् प्राणेन पक्षीयते मामे प्रजायामापशूनाम् माम प्राणेरपक्षेष्ठाः मूलनक्षत्राणि सर्वेषाम् भूतानाम् प्राणेरवपृहत्पञ्चजोत्सर्पञ्च मामे प्रजायामापशूनाम् माम प्राणेरव प्रसृपदमोत्सृपद इमे मासाश्चार्धमासाश्च सर्वेषाम् भूतानाम् प्राणेरव पृथत्पञ्चिजोत्सर्पञ्च च मामे प्रजायामापशूनाम् माम प्राणेरव प्रसपधमोऽक्षपद इमर्धवः सर्वेजाम् भूतानाम् प्राणेरव प्रसर्पन्ति चोत्सर्पन्ति च मामे प्रजायामापशूनाम् माम प्राणेरव प्रसपधमोऽक्षपदात्सरः सर्वेदाम् भूतानाम् प्राणेनव प्रसर्पदिचोत्सर्पदि च मामे प्रजायामापशूना मामप्राणेरव प्रसृभमोऽत्स इदमः सर्वेषाम् भूतानाम् प्राणेन पृथक्परिचोक्षत्पदित मामे प्रजायामापुषूना माम प्राणेन प्रसुपमोत्सुवा यगो रात्रिः सर्वेषाम् भूतानाम् प्राणेनवृथक्पोक्ष मामे प्रजायामापुशूना माम प्राणेन प्रसृपमोत्सुव ओम् एतद्वामिषणम् वामकौरेभ्यम् अतादित्यस्य वसूनामादित्यानागस्थानेश्व तेजसाभानि वृद्रानामादित्यानागस्थानेश्व तेजसाभानि आदित्यानामादित्यानागस्थानेश्व तेजसाभानि तदाकम् दत्यानाम् आदित्यानागस्थानेष्वतेजसाभानि अभिसोऽन्वतामभिधनाम् पादपदाम् मरुताम् आदित्यानागस्थानेश्व तेजुसाभानि ऋभूनामादित्यानागस्थानेश्व तेजसाभाणि अस्था विश्वेशाम् देवानाम् आदित्यानागस्थानेश्व तेजसा अस्था भानि संवत्सरस्य सविदोः आदित्यस्य स्थानेश्व तेजसा अस्था भानि ओम् भोर्भस्वः रस्मयोगो मिचलम् मानो मिथलकुण्डेध्वम् आरोगस्य स्थानेश्व तेजसा भानि राजस्य स्थानेश्वतेजसा भानि पडलस्य स्थानेश्वतेजसा भानि पदङ्गस्य स्थानेष्वतेजसा भानि स्वन्दनस्य स्थानेष्वतेजसा भानि ज्योतिषीमठस्य स्थानेश्वतेजसा भानि निभासस्य स्थानेश्वतेजसा भानि कश्यपस्य स्थानेश्व तेजसा भानि वोम्भोद्भवस्वः आभोमो मिथनम् मानो मिथुनगौर्ये असवायोरेकादश पुरुषस्यैकादशस्तेकस्य प्रभ्राजमानागोरुद्राणागस्थानेष्वतेजसाभानि यवदातानागोरुद्रानागस्थानेष्वतेजसाभानि वासिकवैद्युतानागोरुद्राणागस्थानेष्वतेजसाभानि रजदानागमरुद्राणागस्थानेष्वतेजसाभानि वरुषाणागमरुद्राणागस्थानेश्व तेजसाभानि श्यामानागमरुद्राणागस्थानेश्व तेजसाभानि प्रविडानागम् रुद्रानागस्थाने स्वतेजसा भानि अतिरोहितानागमरुद्राणागस्थाने स्वतेजसाभानि ऊर्ध्वानागमरुद्राणागस्थाने स्व तेजसा भानि अवपदन्तानागमरुद्रानागस्थाने स्वतेजसा भानि वैद्युतानागम् रुद्राणागस्थाने यवदादीनागोरुद्राणीनागस्थानेष्व देजदा भानेनागोरुद्राणि नागस्थानेष्वदे जानि रजता नागोद्राणि नागस्थानेष्वदे जदाभानि वरुषानागोरुद्राणि नागस्थानेष्वदे जदाभानि अतिलोहिनीनागोरुद्रागस्थानेष्वदेजसाभानि ऊर्ध्वानागोरुद्रानीनागस्थानेष्पदेजसाभानि आपदीनागोरुद्राणीनागस्थाने स्वदेजसाभाणि वैद्युकीनागम् रुद्राणीनागस्थाने स्वदेजसाभाणि ओम् भोद्भवस्तः रूपाणि वो मिथनम् मानो मिथुनगुमरे अथाग्नेरक्षपुरुषस्य अग्नेयः पूर्वदिश्यस्य स्थानेष्पदेतसा भाणि उपदिश्यस्य स्थाने तुलेलदाभानि सहोरधो दक्षिणदिश्यस्य स्थाने सुलेलदाभानि हरिपदिश्यस्य स्थाने सुलेलदाभानि ऐश्वानरस्यापरदिश्यस्य स्थाने तुलेलदाभानि नर्यावद उपदिश्यस्य स्थाने तुलेललाभानि वङ्किलाधुश्यस्य स्थाने सुलेलाभानि सदर्पिण उपदेश्यस्य स्थाने ओम् भवद्भवस्व विचलम् वानो विचलगौरेढम् दक्षिणपूर्वस्याञ्विधर्पे नरकः तस्मान्नः परिपाहे दक्षिणापरस्यान्यस्य विधर्पे नरगः तस्मान्नः परिपाहे उत्तरपूर्वस्यान्यश्विषादे नरकः तस्मान्नः परिपाहे उत्तरापरस्यान्यस्य विषादे नरकः तस्मान्नः परिपाहे आयस्मिन् सप्तमासमा इन्द्रियाणशलकृतविद्येते ैः पश्चादुपदधताम् विश्वकर्मा वा ऋत्यैरुत्तरत उपदधताम् कृष्णावरूपैरुपरिष्टादुपदधा साम्याम्बः पश्चादिरे आदित्यः सर्वोज्ञः पृथिव्या बाल्यन्तरिक्षे सौर्योदि चन्द्रमादिक्षो नक्षत्राणि स्वलोके एवाह्येव हेवाह्यग्ने एवा एवा हेमाहि मायो हेमाहि इन्द्र हे माहिपोषन् हेमाहिदेवाः आपमापामुखः सर्वाः अस्मानस्माभितो मुदः अज्ञर्वायिश्च सूर्यश्च सहजम् चकरद्भ्यः वायुवश्वारश् निपदयः वये च आत्मानोऽद्रुहः देवेर्भुवनसूवरेः पुत्रवक्तायमेसुदा महानाम् निर्महामानाः महसोमहस स्मः देवेः पर्जन्यसोबरेः पुत्रवत्तायमेसुदा अपाश्रुष्णिमपारक्षः अपाश्रुष्णिमपारघम् अपाराघ्रामकशावर्तिम् अपा अपदेवीरिदोहिता भजन् देवीरजितागिश्च भुवनम् देवसूवरेः आदित्याजम् देवी योनिनोऽर्थमुदेशता भद्रम् कर्णेऽभिश्रुल्यामदेवाः भद्रम् पश्ये माक्षुभरियत्राः स्थिरङ्गे यत्कृष्णवागुंसस्तनोभिः विषेमेव यज्ञनायोः स्वस्ति न इन्द्रावृद्धश्रवाः स्वस्ति नः पूजाविश्ववेदाः स्वस्ति नस्ताक्षणेभिः स्वस्ति नामृहस्मजन्तधाजो एतमो अरुणादश्च <Sanā>, े समाधिताय सन् शिवानः सन्तमा भवन्तो दिव्याः बोषधयः सन्दृशे योगाम् पुष्पम् वेद पुष्पवान् प्रजावान्पशुमान् भवते चन्द्रमावापाम् पुष्पम् पुष्पवान् प्रजावान्पशुभान् भवते य एवम् पु� यो पामायतनम् वेद आयतनवान् भवति अज्ञर्वापामायतनम् आयतनवान् भवति यो वाग्नेरायतनम् वेद आयतनवान् भवति आपोवाग्नेरायतनम् आयतनवान् भवति य एवम् वेद यो पामायतनम् वेद आयतनवान् भवति आयुर्वा पामायतनम् आयतनवान् भवति यो वायोरायतनम् वेद आयतनवान्भवति आपो वै वायोरायदनम् आयदनवान्भवते येयम् वेद यो पामायदनम् वेद आयतनवान्भवति असौ वैतपन्नपामायदनम् आयदनवान्भवते योऽमुष्यदपद आयदनम् वेद आयदनवान्भवति आपोवा अमुष्यतपद आयदनम् आयतनवान् भवति त्यगेवम् वेद योपामायतनम् वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयुलनवान् भवते यश्चन्द्रमस आयतनम् वेद आयतनवान् भवते आपो हि चन्द्रमस आयतनम् आयतनवान् भवते यगेवम् वेद योपामायतनम् वेद आयतनलान् भवते नक्षत्राणि वा आयतनवान् भवति यो नक्षत्राणामायदनम् वेद आयतनवान् भवति आ बोवे नक्षत्राणामायदनम् आयतनवान् भवति य एवम् वेद यो वामायदनम् वेद आयतनवान् भवति पर्जन्यो वा अपामायदनम् आयतनवान् भवति यः पर्जन्यस्यायदनम् वेद आयतनवान् भवति आबोगे पर्जन्यस्यायदनम् आयनवान्भवति एवम् वेद योऽपामायदनम् वेद आयनवान् भवतिसरो वा अपामायदनम् आयनवान् भवति यः संवत्सरस्यायतनम् वेद आयरलवान्भवति आहोवे संवत्सरस्यायतनम् आयरवान् भवति वेद योरावम् प्रतिष्ठिराम् वेद प्रत्येव हिमे वै लोका अप्सुप्रतिष्ठिताःभ्यमोक्ता अपागुम्भसमुदयम् अपा सन् सूर्ये शुक्रम् समाहृतम् अपागुम्रयोरसः भो गृह्णान्यत्तममिले हिमे वै लोका अपागुम्रसः ते मुष्मिन्नात्ते समाभृताः जानदग्नेमुत्तरवेले खाप्ता अपाम् पूरगित्ता गुम्फदघ्नम् पुष्करवर्णैः पुष्करदण्डैः पुष्करैश्च सग्निस्थैर्य तस्मिन् विहायते अग्निम् प्रणेयापसमाधाय तम् भवादिना वदन्ते कस्मा प्रमेतेयमग्निश्चीयते सा प्रवेतेयमप्स्यक्रेयम् चीयते असौ भवनेत्रिणाहिताग्निरेताः तमभिनयेता अवेष्टका उपदधाति अग्निभवात्रेतरिशभोन्नमासयाः स्येषु अथो आहुः सर्वेषु कृतश्मिनी येदद्ध स्तुष्यण्डिलाः कमग्नि सत्रियमग्निन्वानः संवत्सरम् प्रत्यक्षेण कमग्नि सावित्रमग्निञ्चिन्वानः अमुमादित्यम् प्रत्यक्षेण कमग्निचिनुते नाचिकेतमग्निञ्चिन्वानः नानान्प्रत्यक्षेण िन्वानः ब्रह्म प्रत्यक्षेणते वैश्वञ्चिन्वानः शरीरम् प्रत्यक्षेण कमद्यञ्चिनते उपानुभाष्यमासमद्यञ्चिन्वानः इमान् लोकान् प्रत्यक्षेणते इममारुणकेकमद्यञ्चिन्वान इति योर्मिसूजा वेद मिथुनवान् भवति आो वाग्सूजाः मिथुनवान् भवति जय गुणवेदः